नारदपुराणम् पूर्वार्थम् अध्यायम् एय् शनक उवाच एवमौर्वाश्रमे ते तेद्वे बाहु भार्ये मुनीश्वर चक्राते अक्तिभावेन शुश्रूषाम् प्रतिवासरम् प्रदे वर्षार्धके काले ज्येष्ठराज्ञी तु तस्याः पापमधिर्जादा सपत्न्याः सम्पदं प्रदि ततस्तया गरो दत्तनिष्ठायै दुपयया न स्वप्रभावं गरो मुनिनिशेवया भूलेपनादिभिः सम्यग्यदसनुदिनं मुनेः चकार सेवां तेन सौ जीर्णपुण्येन कर्मणा तदो मा सत्रये ते गरेण सखितं सुतं सु शुशुभे काली शुश्रूषा नष्टगिल्भिषा अहो सत्सङ्गगतिर्लोके किं पापं विनाशयेद। न ददादिसुखं किं वा नराणां पुण्यकर्मणां ज्ञानाज्ञानकृतं न्याना पापं यच्चान्यत्कारितं परैः तत्सर्वं नाश्य यत्या परिचर्या महात्मनां जडोऽपि आदिपूज्यत्वं सत्सङ्काज्जगदीतले कलामात्रोऽपि शीदां शुशम्भुना स्वीकृतो सत्संगदि सत्सङ्गतिपरामृद्धिम् ददादिहि नृणां सदा इहमुत्र च विप्रेन्द्रसन्तःपूज्यतमास्ततः अहो महद्गुणान्वक्तुं तः समर्थो मुनीश्वरगर्भम् प्राप्तो गरोजीर्णो मासत्रय महोद्भुतं गरेण सखिदं पुत्रं दृष्ट्वा तेजो निधिर्मुनिः जातकर्मचकारसौ तन्नाम सगरेतिच च पुपोष सकरं बालं तन्मादा प्रीतिपूर्वकं चौ लोपविधकर्माणि तथा चक्रे मुनीश्वरः शास्त्राण्यध्यापयामास राजयोग्यानि मन्त्रविद समर्थम् सगरम् दृष्ट्वा किञ्चिदुद्भिन्नशैशवम् मन्त्रवत् सर्वशास्त्रास्त्रम् दत्तवान् स मुनीश्वरः सगरशिक्षितस्तेन सम्यग् गौर्वर्षिणा मुने बभूव बलवान् धर्मी कृतज्ञो गुणवान् सुधी धर्मज्ञसोऽपि सगरो मुने पुष्पादि समित्कुशाम्बुपुष्पादिप्रत्यहं समुपानयत स कदाचित् गुणनिधिप्रणिपत्यः स्वमादरम् उवाच प्राञ्जलिर्भूत्वा सगरो विनयान्वितः सगर उवाच मादर्गतः पिता कुत्र किं नामाकस्य वंशजः तत्सर्वं मे समाचक्ष्वश्रोतुं कौतूहलं मम पित्राविहीना ये लोके जीवन्तोऽपि मृतोपमाः दरिद्रोऽपि पिता यस्य ह्याष्टे स यस्य मातापिता नास्ति सुखं तस्य न विद्यते धर्महीनो यथा मूर्खः परत्रेक च निन्दितः माता पितृविहीनस्य अज्ञस्याप्यविवेकिनः अपुत्रस्य वृथा जन्म ऋणग्रस्तस्य शैव हि चन्द्रहीना यथा रात्रिः पद्महीनं यथा सरः पदिहीना यथा नारी पितृहीनस्तथा शिशुः धर्महीनो यथा जन्तुकर्महीनो यथा गृही पशुहीनो यथा वैश्यस्तथा पित्रा विनार्भकः सत्यहीनं यथा वाक्यं साधुहीना यथा सभा तपो यथा दयाहीनं पित्रा विनार्भकः वृक्षहीनं यथारण्यं जलहीना यथा वेगहीनो यथा वाजी विनार्भकः यथा लघुतरो लोके माधर्याज्ञापरो नरः तथा पित्राविहीनस्तु बहु दुःखान्विदः सुदः इदीरिदं सुदेनैषा श्रुत्वा निःश्वस्य दुःखिता सम्पृष्टं सर्वं तस्मै न्यवेदयद् सगरक्रुद्धकोपसंरक्तलोचनः हनिष्यामित्यरादीन् सप्रतिज्ञामकरोत्तदा प्रदक्षिणीकृत्य मुनिं जननीं च प्रणम्य सः च तेनैव मुनिना तदा अौर्वाश्रमाद्विनिष्क्रान्तः सगरः सत्यवा शुचिः वसिष्ठं स्वकुलाचार्यं प्राप्तप्रीतिसमन्विदः प्रणम्य गुरवे तस्मै वसिष्ठाय महात्मने सर्वं विज्ञापयामासनदृष्ट्या विजानते येन्द्रास्त्रं वारुणं द्राह्ममाग्नेयं सगरो नृपः तेनैव मुनिना वापखड्गं वज्रोपमं धनुः ततस्तेनाभ्यनुज्ञातः सगरः सौमनस्यवान् आशीर्भिरर्चितः सद्यः प्रतष्टे दुचापेन स शूरः परिपन्थिनः सपुत्रपौत्रान् पुत्रा सगणानगरोत्स्वर्गवासिनः तच्चापमुक्तबाणाग्नि सन्तप्तास्तदरादयः केचिद्विनष्टाः सन्त्रस्तास्तदा चान्ये प्रदुद्रुवुः केचिद्विशीर्णकेशाश्च वल्मीकोपरि संस्थिताः तृणान्य भक्षयन् के विविशुर्जलं शकाश्च यवनाश्चैव तथा चान्ये महीभृतः सत्वरं शरणं जग्मुर्वसिष्ठं प्राणलोलुपाः जिदक्षिधिर्बाहुपुत्रो रिपून् गुरुसमीपगान् चारैर्विज्ञातवान् सद्यप्राप्तश्चाचार्यसन्निधिं समागतं बाहुसुधं निशम्य मुनिर्वसिष्ठः शरणागतांस्तान् त्रातुं च शिष्याभिहितं च कर्तुं विचारयामास तदा क्षणेन चकारमुण्डान् शबरान्य वनां लम्बमूर्धजान् अन्धांश्च श्मश्रुलान् सर्वान् मुण्डान् वेदबहिष्कृतान् वसिष्ठमुनिना तेन हतप्रायान्निरीक्ष्य सः प्रहसन्प्राह सगरस्वगुरुं तपसो निधिं सगर उवाच भोभो गुरो दुराचारानेतान् न रक्षसि तान् वृद्धा सर्वदाहं हनिष्यामि मत्पिदुर्देशहारकान् उपेक्षेदसमर्थः सन्धर्मस्य सयेव स एव सर्वनाशाय हेतुभूतो न मत्वा दुर्जनाः सकलं जगद त बल हीनाश्चेद् भजन्तेत्यन्तसाधुताम् अहो मायाकृतं कर्म कला कस्मलचेदसः तावत् कुर्वन्ति कार्याणि यावत् स्यात् प्रबलं बलं दासभावं च शत्रूणां वारस्त्रीणां च सौहृदं साधुभावं च सर्पाणां श्रेयस्कामो न विश्वसेद प्रकाशं कुर्वते नित्यं यान् दन्दान् दर्शयन् कलाः तानेव दर्शयन्त्याशुस्वसामर्थ्यविपर्यये पिशुनाधिकया पूर्वं परुषं प्रवदन्ति च अतीवकरुणं वाक्यं वदन्त्येव तथा बलाः श्रेयसामो भवेद्यस्तु निधिशास्त्रार्थकोविदः साधुत्वं समभावं च फलानां नैव विश्वसेद दुर्जनं प्रणतिं मित्रं कैतवशीलिनं दुष्टां भार्यां विश्वस्तो मृदयेवनसंशयः एव तस्मादेदान्वै गोरूपव्याघ्रकर्मिणः अत्वैतानखिलान् दुष्टांस्त्वत्प्रसादान्महीम् भजे वसिष्ठत्तद्वचः श्रुत्वा सुप्रीतो मुनिसत्तमः कराभ्याम् सकरस्याङ्गम् स्पृश्यन्निदमुवाचः वसिष्ठ उवाच साधु साधु महाभाग सत्यं वदसि सुव्रद तथापि मद्वजशुत्वा परां शान्तिं लभिष्यसि मयैते निहता पूर्वं त्वत्प्रतिज्ञा विरोधिनः अदानाम् अनने कीर्ति का समुत्पद्यते वद भूमिश्र सर्वे कर्मपाशेन यन्त्रिताः तथापि पापैर्निषधा किमर्थं हंसितान्पुनः देहस्तु पापजनितः पूर्व मे वै आत्मा ह्यभेद्य पूर्णत्वाच्चास्त्राणामेष निश्चयः स्वकर्मफलभोगानां हेतुमात्रा हि जन्तवः कर्माणि दैवमूलानि दैवाधीनमिदं जगद यस्माद्दैवं हि साधुनां रक्षिता दुष्टशिक्षिता नदो नरैरस्वतन्त्रैः किं कार्यं साध्यते वद शरीरं पापसम्भुदं पापे नैव प्रवर्तते पापमूलमिदं ज्ञात्वा कथं हन्तुं समुद्यतः आत्मा शुद्धोऽपि देहस्तो देहीति प्रोच्यते दे बुधैः तस्मादिदं वपुर्भूप पापमूलं न संशयः पाप का काकीर्तिस्तव बाहुच भविष्यतीति भा निश्चित्य नैदान् िंसीस्तद सुता इति श्रुत्वा गुरो वाक्यं विररामस कोपतः स्पृशन् करेण सगरं नन्दनं मुनयस्तदा अधाधर्वनिधिस्तस्य सगरस्य महात्मनः राज्याभिषेकं कृतवान् मुनिभिः सह सुवदैः भार्दी के केशिनी सुमदीस्तध काश्यप विदर्भ सेनये मुनिम प्रतिष्ठ मुनिरा स्तपोन वनागत राज संभाष्य स्वाश्रम यदाचि तर भूप से भार्याभ्यां प्रार्थितो मुनिः वरं ददावपत्यार्थमौर्वो भार्गवमन्त्रविदत् क्षणं ध्यानस्थितो भूत्वा त्रिकालज्ञो मुनीश्वरः केशिनीं सुमतिं चैव इदमाह प्रहर्षयन् और्व उवाच एका वंशधरं चैकमन्या षडयुतान्य च अपत्यार्थं महाभागे वृणुतां च यथेप्सितम् अध श्रुत्वा मुने रौर्वस्य नारद केशिन्येकं सुतं वव्रे वंशसन्धानकारणं तथा षष्टिसहस्राणि सुमत्या ह्यभवन् नाम्ना समं जा केशिन्यास्तनयो मुनिषत्तम असमं जास्तु कर्माणि चकारोन्मत्तचेष्टितः तं दृष्ट्वा सागरास्सर्वे ह्यासन् दुर्वृत्तचेतसः तद्बालभावं सन्तुष्टं ज्ञात्वा बाहुसुतो नृपः चिन्तयामास विधिवत्पुत्रकर्म विगर्हितम् अहो कष्टतरा लोके दुर्जनानां हि सङ्गतिः कारुकैष्टाड्यदे वह्निरयः संयोगमात्रतः अंशुमान्नामतनयो बभूवह्यः समञ्चसः शास्त्रज्ञो गुणवान् धर्मी पितामहहिते रथः दुर्वृत्तासागर सर्वे लोकोपद्रवकारिणः अनुष्ठानवताम् नित्यमन्दरा या भवन्ति ते कुतानि यानि यत्ने सुखवींसि विधिवद्विजैः बुभुजे तानि सर्वाणि निराकृत्य दिवौकसः स्वर्गादाकृत्य सददं रम्भाद्या देवयोषितः भजन्ति सागरास्ता वै कजग्रहबलात्कृताः पारिजातादिवृक्षाणां पुष्पाण्याकृत्य ते फलाः पूषयन्ति स्वदेहानि मद्यपानपरायणाः साधु वृत्तिसमजहृत्सदाचाराननाश्रयान् मित्रैश्च योद्धुमारब्धा बलीनोऽत्यन्तपापिनः यदद्दृष्ट्वादि दुःखार्था देवा इन्द्रपुरोगमः विचारं परमं चक्रुरे देशां नाशहे दवे सर्वे पादालान्तरगोचरं कपिलं देवदेवेशम् ययुः प्रच्छन्नरूपिणः ध्यायन्तमात्मनात्मानं परानन्तैकविग्रहम् प्रणम्य दण्डवद्भूमौ तुष्टु स्त्रीदशास्ततः देवा ऊजुः नमस्ते योगिने तुभ्यं साङ्घ्य योगरताय च न ररूपप्रदिच्छन्नजिष्णवे विष्णवे नमः नमः परेशभक्ताय लोकानुग्रहेतवे संसारण्यदावाग्ने धर्मपालनसेतवे महदेवी दरागाय तुभ्यं भूयो नमो नमः सा पीडितानास्माम् स्त्रायस्व शरणागतान् कपिल उवाच येदुना समिहेच्छन्ति यशो बलधनायुषाम् त एव लोकान् बाधन्ते नात्राश्चर्यं सुरोत्तमाः यस्तु बाधितुमिच्छेद जनान्निरपराधिनः तं विद्यात् सर्वलोकेषु पापभोगरदं सुराः कर्मणा मनसा वाचा यस्त्वन्यान् बाधते सदा तं हन्ति दैवमेवाशु नात्रकाज्या विचारणा अल्पैराहोभिरे वैदे नाशमेष्यन्ति सागराः इत्युक्ते मुनिनाथेन कपिलेन महात्मना प्रणम्यतं यथा न्यायं कदा अत्रांदरेदु दिवौकसः सगरो वसिष्ठाद्यैर्महर्षिभिः आरेभे हयमेधाघ्यं यज्ञं कर्तुमनुत्तमं। तद्यज्ञे योजितं सप्तिमपहृत्य सुरेश्वरः पादाले स्थापयामास कपिलो यत्र गूढविग्रहशक्रयण कृतमश्वं तु सागराः अन्वेष्टुं बभ्रमुर्लोकान् भूरादींश्च सुविस्मिताः अदृष्टसप्तयस्ते च पातालं गन्तुमुद्यताः चघ्नुर्महीतलं सर्वमेकैको योजनं पृथक् मृत्तिकां खनितां चोद धितीरे समाकिरन् तद्वारेण गदाः सर्वे पादालं सगरात्मजाः विचिन्वन्दि हयम् तत्र मदोन्मत्ता विचेतसः तत्र सूर्य समप्रभं कपिलं ध्याननिरदं वाजिनं च तदन्तिके ततः सर्वे दुःसंरब्धा मुनिम् दृष्ट्वा दिवे गतः हु मुद्युक्तमनःसो विद्रवन्तः समासदन् हन्यदाम् हन्यदामेष वध्यदाम् वध्यदामयम् गृह्यदाम् गृह्यदामाशु इत्यूचुस्ते परस्परं हृताश्वम् साधुभावेन भगवद्यत्ना तत्परं सन्धिशाहो कलालोके कुर्वन्त्याडम्बरं महद इत्युच्चरन्दो जह सुकपिलं ते मुनीश्वरं समस्तेन्द्रियसन्दोहं नियम्यात्मानमात्मनि अस्तिदकपिलस्तेषां तत्कर्म ज्ञादवान्नहि आसन्नमृत्यवस्थेदु विनष्टमदयो मुनिं बिस्सन्ताडयामासु बाहूं च जगृहु परे तदस्त्यक्तसमाधिस्तु स विस्मिदस्तदा। उवाच भावगम्भीरं लोकोपद्रवकारिणः ऐश्वर्यमदमत्तानां क्षुधितानां च मिनाम् अहङ्कारविमूढानां विवेको नैव जायते निधेराधारमात्रेण मही ज्वलदि सर्वदा तदेव मानव भुक्त्वा ज्वलन्तीति किमद्भुतं किमत्रचित्रं सुजनं बाधन्ते यदि दुर्जनाः महीरुह्हांश्चानुतटे पादयन्ति नदीरयाः यत्र श्रीर्यौवनं वापि शारदा वापि तिष्ठति तत्र श्रीर्विद्धता नित्यं मूर्खत्वं चापि जायते अहो कनकमाहात्म्यमाख्यातुं के न शक्यते नाम साम्यदहो ूरोऽपि मदप्रदः भवेद्यदि कलस्य श्रीर्सैव लोकविनाशिनी यथा सखाग्ने पवनपनगस्य यथा विषम् अहोधनमदान्धस्तु पश्यन्नपि न पश्यति यदि पश्यत्यात्महितं स पश्यति न इत्युक्त्वा कपिलक्रुद्धो नेत्राभ्यां ससृजेनलं स वह्निस्सागरान् सर्वान् भस्मसादकरोक्षणात् यन्नेत्रजानलं दृष्ट्वा पातालतलवासिनः अकालप्रलय मत्वा चुक्रुष्यु शोकलालसाः तदग्नितापिता सर्वे दन्तशूकाश्च राक्षसाः सागरं विविशुशीघ्रं सदां कोपो हि दुःसह अथ तस्य महीपस्य समागम्याध्वरं तदा देवदूद उवाच्छेदं सर्वं वृत्तं हि यक्षते येदत्समाकर्ण्या दत्समाकर्ण्य वचः सकरसर्ववित्प्रभुः दैवेन शिक्षिता दुष्टा अधर्मं गुरुदे यस्तु स एव रिपुरिष्यते निरदसर्वलोकविरोधकृत सं रिपुं परमं विद्या शास्त्राणामेष निर्णयः सगरपुत्र नाशेऽपि न शुशोचमुनीश्वरः दुर्वृत्तनिधनं यस्मात् सदामुत्साहकारणं यज्ञेष्वनधिकारत्वादपुत्राणामिति स्मृतेः पौत्रं तमं सुमन्दं हि पुत्रत्वे कृतवान् प्रभुः अस मञ्चस्सुदं तं तु सुधियं वाग्विदां वरम् युयोज सारविद्भूयो ह्यश्वानयनकर्मणि स गदस्तद्बिलद्वारे दृष्ट्वा दं मुनिपुङ्गवम् कपिलं तेजसां राशिं साष्टाङ्गम् प्रणनामः कृताञ्जलि पुडो भूत्वा विनयेनाग्रदस्थितः उवाच शान्तमनसं देवदेवं सनातनं अंशुमानुवाच द्वौ यत्कृतं ब्रह्मन् मत्पितृर्वैः क्षमस्व तद् परोपकारनिरताः क्षमासारा हि साधवः दुर्जनेष्वपि सत्त्वेषु दयाम् कुर्वन्ति साधवः न हि संहरतेज्योत्स्नाम् चन्द्रश्चाण्डालवेश्मनः बाध्यमानोऽपि सुचनः सर्वेषाम् सुखकृद् भवेत् ददाति परमाम् तुष्टिम् भक्ष्यमाणो मरैषशि दारितश्चिह्न एवाभिमोदेनैव चन्दनः सौरभं गुरुदेशर्वं सर्वं तथैव सुजनो जनः क्षान्त्या च तपसाचारैस्तद्गुणज्ञामुनीश्वरः सञ्जातं शासितुं लोकां स्वां विदुः पुरुषोत्तम नमो ब्रह्मन्मुने तुभ्यं नमस्ते ब्रह्ममूर्तये नमो ब्रह्मण्यशीलाय ब्रह्मध्यानपराय च यदि स्तुतो मुनिस्थेन प्रसन्नवदनस्तदा वरं वरय चेत्याह प्रसन्नोऽस्मि तवानख एवमुक्ते तु मुनिना ह्यं स्युमान् प्रणिपत्यदम् प्रापयास्मत्पितृन्ब्राह्मं लोकमित्यभ्यभाषत तदस्तस्यादि संतुष्टो मुनिः प्रोवाचसादरं गङ्गामानीय पौत्रस्ते नयिष्यदि पितृन् दिवम् त्वत्पौत्रेण समानीता गङ्गा पुण्यजला नदी कृत्वै तान्धूत पापान्वैनयिष्यति परं पदम् प्रापयैनं हयं वत्स यदस्यात् पूर्णमध्वरम् पिदा महान्तिकम् प्राप्य शाश्वं वृत्तं न्यवेदयद सगरस्तेन पशुना तं यज्ञं ब्राह्मणैः सह विधाय तपसा विष्णुमाराध्यापदं हरेः जज्ञेह्यं सुमधपुत्रो दिलीप इति विश्रुतः तस्माद्भगीरथो जादो यो गङ्गा मानयद्दिवः भगीरथस्य तपसा तुष्टो ब्रह्मा ददौ मुने गङ्गाम् भगीरथा याथ चिन्तयामास धारणे ततश्च शिवमाराध्य तद्वारा स्वर्णदीम्भुवम् आनीय तज्जलै स्पृष्ट्वा दिवं पितृन् भगीरथान्वये जादसुदासो नाम भूपतिः तस्य पुत्रो मित्र सह सर्वलोकेषु विश्रुतः वसिष्ठशापात्प्राप्तः सौदासौ राक्षसीं तनुं गङ्गाबिन्दुनिषेकेण पुनर्मुक्तो नृपोऽभवत् इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे गङ्गामाहात्म्यं नाम अष्टमोऽध्यायः